अथे पुरुषसूक्तम् सहस्रशीरिषा पुरुषः सहस्रशीरषा पुरुषः सहस्राक्षसहस्रपात् सहस्राक्षसहस्रपात् स्वभूमि विश्वतो मृत्वा तो मृत्वाऽ्यतिष्ठद्दशाङ्कुलम् अत्यतिष्ठद्दशाङ्कुलं पुरुषये वेदकं सर्वम् पुरुषये वेदकं सर्वं यद्धूतं यच्छ भव्यं यद्धूतं यच्छम् उतामृतत्वस्येषानः तामृतत्वस्येषानः यदन्नेनातिरोहति तन्नेनातिरोहदे तस्य महिमा एतावानस्य महिमा अतो ज्यायागीश्च अतो ज्यायागुश्च पुरुषः पुरुषः पा पादोऽस्य विश्वभूतानि पादोऽस्य विश्वभूतानि पादस्यामृतं दिवि पादस्यामृतं दिवे पादूर्द्वे पादो द्वै पुरुषः दयित् पुरुषः आदौ स्ये कवात् पुनः पादो अस्येहा भवात् पुनः विश्वं व्यक्रामत् ततो विश्वं व्यक्रामत् आसनानशने अभि आसनानशने अभि तस्मात् विराड्जायत तस्मात् विराड्जायत पुरुषः विराजो अधिपुरुषः सजातो जातो अत्यरिच्यता स जातो अत्यरिच्यता सा धूमिमथो पुरः पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता देवा यज्ञमतन्वता हसन्तो हसन्तोस्या ज्यम् अस्यासीताज्यम् ग्रीष्मयुग्मशरद्दविः ग्रीष्मयुग्मशरद्दविः सप्तास्यासन् परिदयः सप्तास्यासन् परिदयः त्रिसप्त समिदः कृताः त्रिसप्त समिदः कृताः देवाय यज्ञं तन्वाणाः देवाय त्यज्ञं तन्वाणा भद्रन् पुरुषम् पशुम् अभ्रन् यज्ञान बर्हिषि प्रौक्षन् बर्हिषि प्रोक्षन् पुरुषं जातमघ्रतः पुरुषं जातमघ्रतः येन देवा अयजन्ता तेन देवा अयजन्ता साध्यार्षयश्च ये साध्यार्षयश्च ये आत्ज्ञात् तस्मात्यज्ञा सर्वभूतः सर्वभूतः अमृतं पृषदाज्यं अमृतम् पृषदाज्यम् अशुगस्तागुश्चक्रे वायव्याने आरण्यान वायव्यान् अरण्यान् ग्राम्याश्चये अरण्यान् ग्राम्याश्चये तस्मात्यज्ञात् 없이... तस्मात्यज्ञात् तस्मा सर्वहुतः सर्वभुतः ऋचस्सामानि जज्ञिरे ऋचस्सामानि जज्ञरे छन्दा तुंसि चन्दांसि जग् तस्मात् जग्निरे तस्मात् यजुस्तस्मादजायता यजस्तस्मादजायत तस्मादश्वा तस्मा अजायन्ता तस्मात् श्वा अजायन्ता एके चोभयादतः एके चोभयादतः रावोह जग्िरे रावोह तस्मा जाता अजावयः तस्माजाता अजाभयः पुरुषं व्यदधुः यत्पुरुषं व्यददुः क्यकल्पयन् कथिताव्यकल्पयन् मुखं किमस्य कं किमस्य कौ बाहु ब्राह्मणो स्य ब्राह्मणो अस्य दुःखमासीत् सुखमासीत् बाहुराजन्यकृतः बाहुराजन्यकृतः ऊरुदस्य ऊरुदस्य यद्वैष्यः यद्वैष्यः कद्व्याघं शूद्र अद्व्याघं शूद्रजायत न चन्द्रमा चन्द्रमा न सो चक्षुः सूर्यो चक्षो सूर्यो अजायत अजायत मुखादिन्द्रश्चाग्निश्च मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत प्राणाद्वायुरजायताभ्य आसीदन्तरिक्षं नाभ्य आसीदन्तरिक्ष कृष्णौ द्यौ समवर्तत कृष्णौ द्यौ म् भूमिर्पद्याम्बूमिर्दिषश्रोत्रात् द्विश्रोत्रापि यथा लोकागं तथा लोकागमकल्पयन् अकल्पयन् अकल वेदाहमेतं वेदाहमेतं पुरुषं महान्तं पुरुषं महान्तम् आदित्यवर्णम् आदित्यवर्ण नमसस्तु पारे नमसस्तु पारे सर्वाणि रूपाणि सर्वाणि रूपाणि यदिरः चित्यदीर मानि कृत्वा मानि कृत्वा विवदन्यदास्ते विवदन्यदास्ते पुरस्तान् दाता पुरस्तान् जहार मुदात हार शक्रः प्रविद्वान् शक्रः प्रविद्वान् मेवं विद्वान् अमृतैः भवतान्यपन्थाण्यक् पन्थायनाय विद्यते यनाय विद्यते यज्ञेन यज्ञेन देवाः यज्ञमयजन्त देवानि धर्माणि देवा। तानि धर्माणि प्रथमान्यासन् प्रथमान्यासन् मेघनाकं देहनाकम् महिमानः महिमा न सचन्ते प्रपूर्वे यत्र पूर्वे देवाः साध्याः सन्ति ॐ नमो नारायणाय ॐ नमो नारायणाय अभ्यः सम्भूतः अभ्यस्सम्भूतः पृथिव्यैरसाश्च पृथिव्यैरसाश्च विश्वकर्मण विश्वकर्मण अवर्ततादि मम वर्ततादि तस्य त्वष्टा तस्य ूपमेदि सत्पुरुषस्य सत्पुरुषस्य विश्वमाजानमग्रे विश्वमाजानमग्रे वेदाहमेतं वेदाहमेदम् पुरुषं महान्तम् पुरुषं महान्तम् आदित्यवर्णं तमसत् परस्तात् तमेवं विद्वान् तमेवं विद्वान् अवृतये भवति स्मृतैः भवति अन्यः पन्था अन्यक् पन्था विद्यते जनाय विद्यते जनाय प्रजापतिश्चरति प्रजापतिश्चरति गर्भे अन्तः गर्भे अन्तः अजायमानो अजायमानो बहुधा विजायते बहुधा विजायते यस्य दीरा तस्य दीरा परिजानन्ति योनि रिजानन्ति योन् मरीचीना मरीचीना पदमिच्छन्ति पदमिच्छन्ति दशः वेदसः यो देवेभ्य यो देवेभ्यः पति मातपति यो देवाना यो देवाना पुरोहितः पुरोहितः पूर्वयो ऊर्व यो देवेभ्यो जातः देवेभ्यो जातः मोरुचाये अमोरुचाय रामये ब्राह्मये चम्ब्राह्मं चम्ब्राह्मं जनयन्तः जनयन्तः एव अग्रे वा अग्रे सब्रुवन्मे तदब्रुवण्यस्त्वैवम् यस्त्वैव मणो विद्यात् प्रा मनोविद्यास्य देवा अस्य देवासन्वशे असन्वशे ईष्यते ऋष्यते लक्ष्मीश्च लक्ष्मीश्च पत्न्यौ पत्न्यौ होरात्रे पार्श्वे पार्श्वे नक्षत्राणि रूपं नक्षत्राणि रूपम् अश्विनौ अश्विन व्यार्थम् इष्टं बिषाण इष्टं मनिषा नमं मनिषा न सर्वं ॐ शान्ति शान्ति शान्तिः ॐ शान्ति शान्ति शान्तिः